श्रीमद्भागवतमहापुराणं पञ्चं स्कन्धचतुर्दशोऽध्यायः कदाचिन् भग्नमाद्रष्टो दुर्जनन्दशूकै अलब्धनिद्राक्षणो व्यथितहृदये नालुछीयमाणविज्ञानोऽन्धकूपेऽन्धवद्वदति तर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिर्भिर्वानिहितपदत्यपारे निरये अथ च तस्मादुभयपथापि कर्मास्मिन्नात्मनः संसारावपनं उदाहरन्ति मुग्धस्ततो यदि बन्धाद्देवदत्त उपाच्छिनते तस्मादपे विष्णुमित्र यद्यनवस्थितिः क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणे कल्पो दुरन्तचिन्तया निसन्नास्ते क्वचिन्मिथों व्यवहरन् यत्किञ्चिन् धनं मन्येभ्यो वा काकिनी कामात्रं वय्यपहरन् यत्किञ्चिद्वा विद्वे समेति वित्तसाढ्यात् अध्वन्यमुस्मिन्निममुपसर्गासुधा सुखदुःखरागते मास्तर्येष्यावमानं क्षपासाधि व्याधिजन्मजरामरणादय कापि देवमायां श्रिया भुजलतोपगूढः प्रस्कन्नं विवेकविज्ञानो यद्विहारगृहारम्भाकुल हृदयस्तदाश्रयावसक्तसुतदुहित्रे कलत्रभासितावल्लोकविचेष्टितापहृतहृदय आत्मानम् अभि अजितात्मा तमसी तमसि प्रह्णोति कदाचिदीश्वरस्य भगवतो विष्णोश्चक्राद् ब्रह्माण्वादिद्विपरार्धापवर्गकालोपलक्षणात् परिवर्तितेन वयसा रङ्गसा हरत आ ब्रह्म त्रिणस्तम्भादीनां भूतानाम् अनिमेषितो मिषताम् वित्रस्तदृदयस्तमेवेश्वरं कालचक्र निजायुधं साक्षात् भगवन्तं यज्ञपुरुषम् अनादृत्य पाखण्डदेवताः कङ्कगृध्रं बकटं बकवटप्राया आर्यं समपरिषिताः साङ्केतेनाभिधत्ते यदा पाखण्डेभिरात्मं वञ्चितैस्तैरुं विरिञ्चो ब्रह्मकुलं समावशंस्तेषाम् शीलामुपनयनादि श्रोतस्मात् कर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तद रोचते शुद्रकुलं भजते निगमाचारे शुद्धिं शुद्धितो यस्य मिथुनीभाव कुटुम्बभरणं यथा वा नरजातेह तत्रापि निरवरोध स्वैरेण विहिरन्नति कृप बुद्धिरन्योन्यमुखनिरीक्षणादीनां ग्राम्यकर्मणैव विस्मृतकालावधि क्वचिन्द्रुमं वधैहिकार्थेषु गृहेषु रस्यन्यथा वानरसुदतारवसलो व्यवायक्षरः एममध्वन्यवरुन्धानो मृगो गजभयात्तपसे गिरिकन्दरप्राये क्वचिच्छेतवाताद्यटेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणे कल्पो दुरन्तविषयविषन्नास्ते क्वचिच्चिन्मित्रो व्यवहरन् यत्किञ्चिन् कञ्चिन् धनमुपयाति वित्तसाढ्येन क्वचिच्छेण धनः शय्यासनासनाद्योपभोगविहीनो यावद्वतिलब्धपदो रथोपुं प्रगतादादेवशीतं मते ततस्ततोऽवमानादिजनादभिलभते